ो वा देशयदज्ञः किं वा हेदस्य क्रियते किं वा नै यज्ञस्य क्रियमाणस्यान्तर्यन्ति पूयति वा अस्य तदाश्विने वै देवानामेवस्मै भेषजं करोदि पञ्चोपदधातिपान्तो यज्ञो यावानेव यज्ञस्तस्मै वा ऋतवो यावन्तदे वर्तवस्तान् कल्पयति समान प्रभृतजो भवन्ति समानो दर्गास्तस्मात् समाना ऋतमदे केन पदेन व्या वर्तन्ते तस्मा ऋतभोव्या वर्तन्ते प्राणभृत उपदधा ऋतुष्वेव प्राणान् दधाति तस्मात् समाना सन्तऋतभो नीर्यं दधो प्रजनयत्येवैनानेश वैवायत् प्राणो य धृतव्या उपधाया धादितस्मात् सर्वानृतों वरुषेतनुपरिहारं साधयति तस्मात् सर्वानृतोपधा च वृष्टिसनेनुपदधादि तस्माद्वायुप्रच्युताधिको वृष्टि वै वयस्या खलु वै वशवो नानाः व्रतास्ते सो ल्यङ्कामजेदा पशुः स्यादिति वयस्यास्तो बधाय पश्यात्पदध्यानसम् ज्ञानमेवास्मे पशुभिः करोत्यपशुरेव भवति लङ्कामजे दासमाञ् स्यादित्यपस्यास्तश्च बधाय वयस्या उपदध्याच्छम् स्मि पशुभिः करोति पशुमाने भवति चतस्रः पुरस्तादुपदधाति तस्मा चत्वारि चक्षुषोरूपाणि द्वे द्वे कृष्णे मोर्धन्वदेर्भवं जनस्मात् पुरस्तान् मोर्धा दक्षिणाज्यामुपदधाति पञ्चोत्तरस्यां तस्मात् पश्चाद्वर्षेधान् पुरस्ताः द्रवणः जयति दक्षिणे गुंस उप दधाति कृष्णेर्वयित्युत्तरे गुंसावेव प्रति दधाति राज्ञो वयति दक्षिणे पक्ष उपदधाति सिंहोऽव जयित्युत्तरे मध्ये अस्मात् पुरुषः पशूनामधिपतिः े अं यथमानामि विस्वजमातृन्नामुपदधाम्राज्ञिभ्यां वाणिमो लोको लो विसृतार्विशृत्या अधृते भवा एषामध्यमाचितिरं तरिक्षमि भवा एषाहेन्द्राज्ञे वै देवानामोजो वृदा वोचसै वै नामं तरिक्षे वै मातृण्णान्तरिक्षमेवोपधत् स्वमुपध्रामय प्राणमेवास्यां दधात्यथो प्राजापत्यो वा अश्वः प्रजापति नैवाज्ञं च स्वज मातृन्नाभवत् प्राणानामुत्सृष्ट्या अथ सुवर्गस्य देवानां सुवर्गं लोकै यतां दिश समौलेयं ततजय ता दिश्चा अपश्यन्ता उपदधा दिशां सप्ते दश प्राणभृतः पुरस्तादुपदधाय मम पुरुषे प्राणा प्राणानेव पुरस्ताद्मात् पुरस्ताः प्राणाज्योतिष्मीमुत्तमामुपदधाति तस्मात् प्राणानां वाग्ज्योतिरुत्तमादशोपदधा देशाक्षरा विराग्नाच्छन्दसा ज्योतिर्ज्योतिरेव पुरस्ताद् पुरस्तास्मन्दाशुष्वाजिमजुस्तान् बृहत्तु दत्तस्माद् मा छन्द इति दक्षिणतः उपदधाति तस्मावृतो मासा पृथिवेन्द इति पश्चात् प्रतिष्ठित्य अग्निर्देवतेत्युत्तरतो अग्निरोदेवोत्तरतो धक्ते तस्मादुत्तरतोऽभिप्रजाति जगतिषत् ्यन्ते क्षत्रिगं सदक्षरा बृहदेवारिहता पशवो बृहदेवास्मे पशो नवस्वाराज्यं परे राजदस्यैता गच्छति स्वाराजं सप्तमा रखिल्या पुरस्तादुपदधाति सप्त पश्चात् सप्तवेः प्राणानागं सवेर्गद्वाजमूर्धा दधाति अहम् त्रेराडिति पश्चात् प्राणानेवस्मे समीचो दधाति देवामेयज्ञे कुर्वत तदसुरा अकुर्वत ते देवा देवता अक्ष्णया स्तोमेया अपश्यन्ता अन्यथा नो स्यान्यथोपादथ तदसुराणां न वाजं ततो देवा अभवन्परासुरायदक्षणया स्तोमेया अन्यथा नो स्यान्यथोपदथादिग्भ्रातरुजा विभोत्ये भवत्या भ्रातरुजा भवत्या सुस्मिति पुरस्तादुपदथादिज्ञमुखं वये जगद्यज्ञा जगति व्योम सप्तदश यदि दक्षिणतोऽं वै व्योमान्नमेव दक्षिणतो धत्ते तस्माद् दक्षिणे नाम्न मज्जते धरुणदेकविगुं सगति पश्चात् प्रतिष्ठाभादेकुं चेभां तः पञ्चदश युत्युत्तरत ओजो वै भां तव ओजः पञ्चदश ओजदेवोत्तरतो धत्ते तस्मादुत्तरतोऽभिप्रजाये जति प्रतो ष्टादश इति पुरस्तादुपदधा जौ ध्रिमताभिपूर्वज्ञमुखे <laughs> विजात जत्यभिमत्तः स विगुंस इतिभक्तोऽन्नगुंसविगुंशोऽन्नमेव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नमद्य देवंशति पश्चाद्यद्विगुंसद्वेते न भिराजो यद्वे प्रतिष्ठातेन विराजो देवाभिपूर्वमन्नाद्य त्युत्तरतस्तस्मात् सो हस्तजोस्तपस्वितरो यो निश्चतुर्विगुंशयति पुनस्तादुपदधाति चतुर्विगुंशत्यक्षरा गायत्रे गायत्रे यज्ञमुखं यज्ञमुखमेवस्ताद्भियातजति गर्भाः पञ्चविगुंशयति दक्षिणतोऽन्नं वै गर्भान्नं त्युत्तरतस्तस्मार कृतुंश यदि पुरस्तादुपदधातुर्मुखं वा यज्ञमुखमेव पुरस्ताद्विजा पिष्टपं चतुस्त्रिगुंशयति दक्षिणतो ब्रह्मस्य पिष्टपं ब्रह्मवर्तसमेव दक्षिणतो तस्माद्दक्षिणोऽर्थ ब्रह्मवर्धचरः प्रतिष्ठा त्रयस्तृगुंसयते च प्रतिष्ठत्यै नाकश्चत्रिगुंसयत्युत्तरदस्वर्गो वै ग्नेर्भागोऽसेति पुरस्तादुपदधाति यज्ञमुखम् वा अग्निर्जज्ञा यज्ञस्ताद् विजातयति नृचक्षसाम् भागोऽसेति दक्षिणदर्शुश्रमागं सो वै रचक्षसोऽवास्मा अन्नमविदधाति तस्मातोन्नमत्ये ोऽन्नमेव दक्षिणतो धे तस्माद् दक्षिणे नान्न मद्यते मित्रस्य भागोऽसीति पश्चात् नाणो वित्रो बाणो वरुणः प्राणापाणा वे वास्मिन् दधा विवो वृष्टविस्कृतादेकविघुं सस्तो मदित्याः प्रतिष्ठा वादेकविघुं सः प्रतिक्षि च इन्द्रस्य भागोऽसीत्युत्तर तवोजो वा इन्द्रवोजो पञ्चदश ेवोत्तरतो धत्ते तस्मादुत्तरतोऽभिप्रजायति वसूनां भागोऽसीति पुरस्तादुपदधादि यज्ञमुखं वै वसवो रुद्रा यज्ञमुखं चतुर्विकुंशो यज्ञमुखमेव पुरस्ताद्दित्यानां भागोऽसीति दक्षिणतोऽन्नं आदित्या अन्नं मरुतोऽन्यं गर्भा अन्नं पञ्चविकुंशोऽन्नमेव दक्षिणतोक्षिणेना ष्ठा पूषा प्रतिष्ठा तृणः प्रतिष्ठिते देवस्य सविदुद्भागोऽसीत्युत्तरतो ब्रह्म वै देवः सविता ब्रह्म बृहस्पृह्मो ब्रह्मवर्चस देवोत्तरतो भक्ते ब्रह्म सा पितृपदे भवति प्रसूत ब्राह्मणाे सदिः प्रसूता धत्रश्चतुष्टो मयि पुरस्तादुपदधा यज्ञमुखं च तुष्टो मो यज्ञमुखमेव पुरस्ताद्विजा चावाणां भागो चेति यक्षिणतोमासा वे या वा अन्नं वै अन्नं प्रजा स्माद् दक्षिणेनान्नमद्यतर्भूनां भागो सेति पश्चात् प्रदक्षे विभक्तों सज्चत्वरतो नयोः लोकयो सवेर्यत्वाय तस्मादिमौ लोगौ समावन्देर्यौ यस्य मुक्ष्यपते पुरस्ताद् पथिजन्ते मुक्ष्यजे भवत्यास्य मुख्यो जायते यस्यान्नपतेर्दक्षिणतो नादो जायते यस्य प्रतिष्ठाव पश्चात्रत्यवतिष्ठति यस्यौ जस्पतिरुत्तर तपोजस्येव भवत्या सौजस्वी जायते अर्को वा एष यदग्निस्तस्यैतदेव स्तोत्रमेतच्छस्त्रै यदेषा भिधा विच्छेदतेऽर्कजेव तदर्क्यमनुविधेजतेत्यन्नमास्या नादो जायते यस्यैषा विथा विच्छेदते यवचैनामेवम्बेदसृष्टे धा शिष्टमे वा वयुन्धेन वा इदम् दिवानरक्तमासीत विजावृत्तम् ते देवादेतान्ता वा इदम् यौच्छद्यस्यैता उपधीयन्ते छोतमदेवापहते छद्यस्यैता उपधीयन्ते व्येवास्मा उच्छो तमदेवापहते ग्ने जातान् प्रणुदानः सपद्नानिधि पुरस्तादुपदधादिजातानेव धारुर्यान् प्रणुदते सहसा जातानिधि पश्चात् जनिष्यमानानेवतिनुदते चतुश्चत्वारि गंशस्ता मलिति दक्षिणतो ब्रह्मवर्तसं वै चतुश्चत्वारि गं स ब्रह्मवर्धस वेम दक्षिणतो सप्ते तस्माद्दक्षिणोऽर्थो षोडश ओचते वोत्तरतो धत्ते तस्मादुत्तरतो वज्रो वै चतुश्चत्वारिपुंसो वज्रोडशोजतेष्यमाणाद्यवज्रमनुे पुरेश मध्यमुपदधाति पुरेशं वै मध्यमात्मनः सात्मानमेवाज्ञञ्चनुतेशात्मामुष्मल्लोके भव उपधेयन्ते नास्तसपद्मो भवति पशुर्वाचेत्तमायां छिद्रामुपदधाति विराजमेवोत्तमां पशुषु दधाति तस्मात् पशुपाणोत्तमां वाचं वदति दशदसोपदधाति समेक्ष्णजोपदधाति तस्मादक्ष्णजा पशवोऽ प्रहरन्ति प्रक्षि जै यानि मेछन्द ग्याण्यासं तैर्देवास्वर्गं लोकमाजं तेन ते तपो दानि तपसा पश्यन्ते खलेदा इष्टका निन्दोच्च्छन्दताभिर्वैते सुवर्गं लोकमाजन यता इष्टगा उपदधातिजान्येवन्दागं शिशुवर्गाणि तैरेव यजमानस्वर्गं लोकमेति यज्ञेन वै प्रजापद ृहस्पति वा एता प्रतिष्ठामपश्यद्यत् सोमभागायत् सोमभागा उपदधाति यज्ञ धाति समेर्यद्वायति स्वमध्ये प्रतिष्ठित्यै स्मेत्येवादित्यमसजत प्रेतिरिति धर्ममण् सन्धेत्यन्तरिक्षम्पृथिवीष्टम् रुद्रांसुतिरित्यादित्यानोति प्रजातनाषादित्योभिजिसिग्रावे राजत्वे रञ्जिन्वेत्येव दक्षिणतो वज्रम् ेताः प्रजा अमप्राणा स्वधिपतिरसेत्येव प्राणमदधाद्यपानगं सकुं सर्पक्षुधान्ताः प्रजाः प्राणतेर्पानदे पश्यन्ते शृण्वतेऽर्नमिथुने अभवन्तासो देव मिथुनमदधात्ताः प्रजामिथुने भवन्ते अर्न प्राजायन्तः सकं रोहासि प्राजनयत्ताः प्रजाः प्रजादानप्रत्यतिष्ठन्ता वसुको शिवेषश्रिण शिवस्यष्टिरसीत्येवेषु लोकेषु प्रत्यस्थापयद्यदाः वसुको शिवे शिवस्यष्टिरसीति प्रजा एव प्रजाता येषु लोकेषु प्रतिष्ठापयति सात्मान्तरिक्षमिम् रोहति प्राणो पुष्पिम् लोके प्रतितिष्ठत्यर्भुकः प्राणापानाभ्याम् भवति यदेवम् वेद नाकसद्भिर्वै देवास्वर्गं लोकमायं तन्नाकसदान्नाकसत्त्वयि जन्नाकसद उपदधाति नाकसद्भिरेव यजमानस्वर्गं लोकमेति स्वर्गो वै लोको नागो यस्यैता उपथेयं तेनास्मानकं भवति यजमानायतनं वै नाकसदो जन्नाकसद उपदथात्यायतनमेवायजमानः उपदधा जष्ठानामेवोडा उपदधात्यप्सरस देवैनमेता भूता अमुष्कुल्लोक उपशेरे चोतनोपानीता यजमानस्येताभ्यदेवैनं देवताभ्याविष्टातिमाच्छत्युत्तरा नागसद्भ उपदधा दिछाजामानीय गृहेषु निषादयति तादृगेव प्राचेमुत्तमामुपदधाति तस्मा पश्चात् प्राचे पत्न्यं वास्ते स्वयमातृणाञ्च विकर्णे चोत्तमे उपदधाति प्राणो वै स्वय मातृण्णायुर्मिकर्णे प्राणं चैवायुश्चाणानामुत्तमौ धत्ते तस्मात् प्राणस्त्रायुश्चाणानामुत्तमो नान्यामुत्तरामिष्टकामुपदधाद्मन्यामुत्तरामिष्टक मुपदध्यात् पशूनां च तस्मान् नान्योत्तरेष्वगोपधेया स्वय मातृन्नामुपदधाद्यसौ वये स्वय मातृन्नामोमेवोपधत्ते समुदि प्राणमेवास्यां दधात् सो प्राजापत्यो वाश्वः प्रजापतिनैवामिञ्च नुदे र्गस्य लोगस्यानुख्यात्या एषा वै देवानाम् विग्राहम् तिरुजद्विकर्णे जद्विकर्णेमुपदधाति देवानामेव विग्राहम् विक्रमदरुत्तरत उपदधाति तस्मादुत्तरत उपचारोऽज्ञर्वायुमते भवति समिध्यै छन्दागः सुपदधाति पशवो वै छन्दागुं शिवशोने वा वरुन्धे छन्दागुं शिवैदेवानाहां वामं पशवो वाममे पशोनवरुन्धे दागु हवे यज्ञसेनश्चैत्रियायणश्चिजम्बिनाञ्चकारे सपशोनवारुं भजते तामपदधाति पशोने वा वरुन्धेत्रे स्फुरस्तादुपदधाति तेजो वै गायत्रे तेजदेवत्ते मोर्धन्वतेः ृष्टुभ उपदधाति वै पृष्ट जगतेरुपदधाति जागता वै वसवः पशोने वा वरुन्धे नृष्टुभ उपदधाति प्राणावाष्टु प्राणानामुत्सृष्टे बृहदे रुष्टिः रक्षन्ते छन्दा निशुरूपा वे पशवः पशवश्चन्दागंसि विशुरूपानेव न वरुन्धे विशुरूपेता शा उपथेजन्ते सर्वेभिरेवैनं छन्दभिश्चनुदेवष्णवादेशान्दसां कृच्छन्दा इदधिन्द समुपदधा दिवस्मै वैनगं समानाना उपदधा यद्धिवाद्यजमानः प्रतिष्ठित्यै सर्वाभ्यो मे देवताभ्योऽनिश्चेजदयत्सयुजो नोपदधा देवतास्याग्निमृञ्जेतन यत्सयुज उपदधा ै नुंसयुजं चै अग्निः सन्ततोग्निना वै देवा स्वर्गं लोकमाजन्ता अमोकृत्तिकाजश्चेता उपधिजं देशवर्गमेव लोकमेधिगच्छति प्रकाशञ्चित्रमेव भवति मण्डले उपदधाति मे वै लोकामण्डलेष्टकादिमे खलु वै लोकादेव देवबुरा र्च्छत्यग्निम् चज्ञानो विस्म ज्योतिष उपदधा देवानेवैताभिर्लोकान् वृष्टिसने रूपदधाति वृष्टिमेवावरुं धादे कमृदुं परिषेदनुपरिहारं तस्मात् सर्वाषति पुरोवातसनिरसेत्याहैतद्वै वृष्ट्यैरूपेणैव वृष्टिमवरुं ध्यानेभवै देवायमान् लोकान् समजस्तत्सैयानेयाने त्वय्युपदधाति यथा सुनावासंयाेवै र्यजमान इमाल्लोगान् संयादिप्लवो वादेशोग्नेर्येरुदिप्लवमेवैनमग्न उपदधात्युदयस्यैदासूपहिदा हृदये वास्याग्निरादित्येष्टगा उपदधात्यादित्या वादेभो ते प्रतिमुदं तेजोरम्भोद्ये शम्भोजन्द जं तसौवादेतस्यादित्योग्नि रोचते यदादित्येष्टका उपदधाः तावेवस्मिन्नादित्योदृं यथासौ देवानागुं रोचत एवमेवैषनुष्यानागुं रोचते हृदेष्टका उपदधात्येतद्वाग्ने पृजन्धाम धाप्रजापतिरैषयश आत्मन्न धत्त यद्यशोदा उपधाति यश देवर्यजमान आत्मम् धत्ते पञ्चोपदथादिपाङ्गः पुरुषो यावानेव पुरुषस्तस्मिन् यशो दधादि देवासुरासंयत्ता आसं कनीजागुं सो देवा आसं भोजागुं सोऽसुरास्ते देवा एता विष्णका अपस्यन्ता उपादधत भोजस्कृदसे देव भोजागुं सौ भवन् वनस्पतिभिरोषधेभिर्वरिवस्कृदसेति मामजन्प्राच्यसेतिप्राचीं दिशमजन्मोर्ध्वासीत्यमोमजन्नन्तरिक्षसदस्यन्तरिक्षे सीदेत्यन्तरिक्षमजन्ततो देवा सुराजस्येतामुपधीयन्ते भूयानेव भवत्य भवत्यात्मना परास्य हेतद्वा अग्ने रूपगो रूपेण पृथुजास्त्वा द्रविणे सा दयामे माने वेदाथिर्लोकान् द्रविणामतः त्यग्ने जरगुं हृन्नामेत्याहेतुवा अग्नेः प्रियं धामप्रियमेवासधामो वाग्नो दितावे हिषगोरभावहादित्याहव्यपरिधत्ते पाञ्चजह्नेष्वग्नजिद्याहेशवा अग्निः पाञ्चजह्नोजः पञ्चजतेकस्तस्मादेव माहतव्या उपदधात्ते तद्वा ऋतूनां प्रियं धाम च कृतव्या ऋतूनामेव धामा वरुन्धे सुमेक जिग्दाः संवत्सरो वै सुमेकः प्रजापदे रक्षस्व यप्तत्परापदत्तदश्व भवदश्वदश्वस्याश्वत्वां तद्येव अश्वमेधेनैव प्रतलुरेश वै प्रजापतिं सर्वं करोमेधेन गजदे सर्वदेव भवति सर्वस्य वादेशा प्रायस्थीतिः सर्वस्य भेषजगं सर्वं बालेतेन आत्मानम् देवा अतरङ्ग्रह्महत्यामदरम् सर्वं पाप्मानन्तरति नरति ब्रह्म हत्यामेवं वेदोत्तरं वैद प्रजापते रक्ष्यस्वय तस्मादृत्योत्तरतो मध्यन्ति दक्षिणतोन्येषां वशूनां कर्म भवत्यप्सुजो निरुवाश्वप्सुजो वेदसस्वजे वैनयो नौ प्रदक्षा वृष्टोमस्तोमो भवति सरग्घवा अश्वस्य ृहत्तद्देवाश्चतुष्टो मे देवात्यदधुर्यतुष्टोमस्तोमो भवत्यश्वस्य सर्वत्वाय